मुद्गलपुराण खंडम टूकदंतचर अय स्वायंभुव वर प्रधानमंत्री श्रीगणेशा नम मुद्गल उवाच नवब्रह्मसुदा प्रोक्तास्ते पुस्ते परमं परम तपस्वर्षसहस्रम च गणेश हृदय चिंतन एकाक्षरधान पूजयत वायु मात्रशिन सर्वे तोषयासुरादराद तदस् प्रसन्नोभूदेश आययौ तान् वरं दातुं मूषकोपरि संस्थितः अनन्तसूर्यसङ्काश्यं दृष्ट्वा तं हर्षसंयुताः सौम्यरूपं प्रणेमुस्ते निबद्धकरसम्पुडाः तुष्टुवुः परमात्मानं गणेशं दक्षमुख्यकाः तद्दर्शनजबोधेन भक्तिनम्रात्मकन्धराः प्रजापतय ऊचुः नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे सर्वात्मने स्वसंवेद्यपिणे ते नमो नमः योगाय जगदां पात्रे ब्रह्मदात्रे नमो नमः योगिना गम्य रूपाय, रूपा योग प्रदायते, स्रष्टे पात्रे ज संहर्े नापरायते अव्यक्ताय व्यक्ता व्यक्ताव्यक्ताये व्यक्दा नम ब्रह्मणे विष्णे चंकराय चानवे चक्रये चन्द्ररूपाय यमाय च नमो नमः अग्नये नैरृतायैव वा वारुणाय च वायवे कुबेराय च रुद्राय शेषाय च नमो नमः ग्रहनक्षत्ररूपाय सिद्धसाध्यमयाय च पशवे नररूपाय वृक्षाकाराय ते नमः पर्वताय समुद्राय नदीनदसुरूपिणे दैत्याय दैत्यनाधाय राक्षसाय नमो नमः अन्नाय फलरूपाय रसरूपाय ते नमः पञ्चभूतमयायैव सर्वाकाराय ते नमः छिद्रूपाय च बोधाय विदेहाय नमो नमः असत्याय च सत्याय समरूपाय साधये स्वानन्दाय ह्ययोगाय योगाय गणधारिणे गणेशाय नमस्तुभ्यं सर्वशान्तिप्रदाय च चिन्तामणिं त्वां कस्थोधुं समर्थस्यात्प्रकाशकम् चित्तस्य चित्तवृत्तीना मतस्त्वां प्रणमामहे मुद्गल उवाच एवं स्तुत्वा गणेशं तं प्रणतास्ते प्रजापदे तानुवाच गणाधीशो वृणुध्वं विविधान् वरान् भवद्भिर्यत्कृतं स्तोत्रं मम भविष्यति यः पठिष्यधि तावेन श्रोष्यते सर्वसिद्धिदं पुत्रपौत्र कलत्रादिप्रदं तेभ्यो भविष्यति वन्द्यदोषभरं धान्यधनदं पशुदं परं भुक्तिमुक्तिप्रदं स्तोत्रं ब्रह्मभूयकरं भवेत् मन ईप्सितदं पुण्यं नराणां नात्र संशयः गणेशवचनं श्रुत्वा त एवं हर्षसंयुताः तं प्रणम्यमहाभक््या ऊचुः प्राञ्जलयो भवन् त ऊचुः यदि प्रसन्नतां यादस्तदा देहि गजानन त्वदीयामचलाम्भक्तिं यया मोहो विनश्यदि सामर्थ्यमधुलं सृष्टेर्देहिनो विघ्ननायक यद्यदिच्छामहे ढुण्ढे तत्तत्सिध्यतु सर्वदा ओमित्युक्त्वा गणाधी स्योन्दर्धानं प्रचकार वै ते पितं मनसा ध्यात्वा ययुः स्वपदं तदः तदो ततो ब्रह्म पुनर्दक्षमगाधीपुत्रमुत्तमं शक्तेस्तपस्त्वया कार्यं सादे पुत्री भविष्यति तदो दक्षेन तपसा राधिदा शक्तिरादराद शतवर्षे प्रसन्ना साययौ तस्यान्तिकं स्वयं ततस्तां प्रणनामाध तुष्टाव प्रकृताञ्जलिः दक्ष उवाच नमस्ते शक्तिरूपायै मायामोहस्वरूपिणि जगद्धात्र्यै नमस्तुभ्यं जगन्मादर्नमो नमः सर्वेषां प्राणधात्र्यै ते सर्वरूपिणि ते नमः अनाद्यै चाधिभूतायै पार्वत्यै ते नमो नमः गायत्रिका श्री सावित्रीरूपायै ते नमो नमः प्रकृत्यै पुरुषाख्यायै नामरूपप्रकाशिनि निर्गुणायै गुणानां वै धारिकायै नमो नमः प्रसीद भव पुत्री दाक्षायणि नमो नमः पार्वदी पार्वतीप्राह भक्तं दक्षप्रजापतिं शक्तिरुवाच भविष्यामि सुता तेहं नानारूपधरास् सुत जगच्च पूरयिष्यामि जनयित्वा सुतास् त्वया कृतमदीयं यत् स्तोत्रं ख्यादिं गमिष्यति सर्वकामप्रदं पूर्णं पठते शृण्वते भवेद अन्तर्धानं ययौ देवी पश्यतस्ते प्रजापते त्वया गणेशनाम्नश्च स्मरणं त्यक्तमद्य वै मन्द्रस्तस्य परित्यक्तस्वेन दुर्बुद्धिधारिणा त्वया तिरस्कृता पुत्री सदी भस्मत्वमागता त्वमपि शोकसंयुक्तकृतो विघ्नेश्वरेण वै पूर्वसंस्कारयोगेन स्मृतिस्तव समागता अधुना भावयुक्तस्तं शृणु मे तत्कथामृतं राज्यलक्ष्मीश्च संप्राप्ता यं प्रमाददा तया युक्त सद्यो मदान्धो जायते किल अधः सन्धश्च नेच्छन्ति लक्ष्मीं ज्ञानविनाशिनीम् मनुस्वायम्भुवख्यादसपत्नीको ययौवनम् अष्टाक्षरविधानेन तोषयामास तदापसतपोकोरं तदापसतपोखोरं दिव्यवर्षसहस्रकं प्रसन्नोऽभू तदा तस्मै वरं दातुं समाययौ तं प्रणनामादौ मनुस्वायम्भुवः प्रभो पूजयन्परया भक्रिया तदस्तुष्ठावविघ्नपम् स्वायम्भुव उवाच नमस्ते गजवक्त्राय हैरम्भाय नमो नमः ओङ्काराकृतिरूपाय सगुणाय नमो नमः नैर्गु्ये गजरूपाय सदा ब्रह्मात्मने गणेशाय सदा भक्तपोषकाय नमो नम नरकुरूा योगेदा ते नम चुहुधरा पुषाथप्र सिद्ध नानाभोगा नंदलीलास्वू विघ्नराजाय देवाय भक्त विघ्नविदारिणे सत्याः सत्यमयायैवाव्यक्तभेदात्मने नमः स्वानन्दपदये तुभ्यं सदा स्वानन्ददायिने नमस्ते मूषकारूढ सर्वान्तरसुभोगिने नानामृतसमुद्रे च क्रीडाकार नमोस्तुदे दे सिद्धिबुद्धिपते तुभ्यं द्वेधा मायाप्रसारिणे भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः वेदोपनिषदां लभ्य महावाक्यमयाय ते वैतुभ्यं नमस्ते ब्रह्मराशये किं स्तौमि त्वां गणाधीश यत्र वेदश्च विस्मिताः योगिनस्य समुख्या वै महेश्वराः तथापि तव जातेन दर्शनेन गजानन स्फूर्तिप्राप्ताय तया नाथसंस्तुतोऽसि प्रभो अहो भाग्यमहो भाग्यम् येन दृष्टो गजाननः वेदान्तगोचरो गम्यो धन्योऽहम् जगदीतले धन्यो मे जनको देव तपोज्ञानम् कुलम् प्रभो विद्याव्रतादिकम् सर्वं धन्यं ते पाददर्शनाद इदिस्तुत्वा स्तुत्वागणाधीशम्भक्रिया परमया युधः सरोमाञ्जो भवत्तत्र प्रणनाम पुनः पुनः समुद्घाप्यगणाधीशो गादितं भक्तमुत्तमं वरं वृणुमहाभागयस्ते मनसि वर्तते कृतं त्वया मदीयं यत् स्तवनं तोषकारकं पठते शृण्वते चापि सर्वदं प्रभविष्यति पुत्रपौत्रादिविभवप्रदं शोकविनाशनं धनधान्यसमृद्ध्यादिप्रदं भाविन संशयः धर्मार्थ काममोक्षाणां साधनं ब्रह्मदायकं दृढभक्तिकर मेजभविष्यदि न संशयः इति ब्रुवन्दं विघ्नेशमुवाचमनुसत्तमः स्वायम्भुवः प्रसन्नात्मा कृताञ्जलिरुदारधीः मनुरुवाच यदि प्रसन्नतां यादस्तदा देहि गजानन भक्तिदृढां त्वदीयां मेयया मोहो न विद्यते सृष्ठे करणसामर्थ्यं धर्मपालनमुत्तमं प्रजारक्षकदां देहि देवदेवेश्य चिरम् यदिचा विघ्नेश तत्द्य तव भक्षु वा मानदा, सदा तथे तमुवाचा दकार गणेशानो निजे लोके गई भक्वत्सल तत्सिद्रीमदुराणोपनिषदि श्रीमन्माौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते स्वयंभुव वरप्रधानं नाम पञ्चमोऽध्यायः ओम्